नम आ व्याधिनीभ्य आव्याधिनीभ्यो नमो नम आ व्याधिनीभ्यो विविध्यन्देभ्यो विविध्यन्देभ्य आव्याधिनीभ्यो नमो नम आव्याधिनीभ्यो विविध्यम् दिभ्यः आव्याधिनी ो विविध्यन्देभ्यो विविध्यन्देभ्य आ व्याधिनीयेभ्यः विविध्यन्तेभ्यश्च च विविध्यन्तेभ्यो विविध्यन्तेभ्यश्च वो वश्च विविध्यन्तेभ्यो विविध्यन्तेभ्यश्च वः विविध्यन्तेभ्य इति विध्यन्तेभ्यः च वो वश्च वो नमो नमो वश्च वो नमः वो नमो नमो वो भो नमो नमः नमो नमः नम उगणाभ्य उगणाभ्यो नमो नम उगणाभ्यस्त्रगम् हदीभ्यस्त्रगम् हदीभ्य उगणाभ्यो नमो नम उगणाभ्यस्त्रगम् हतीभ्यः उगणाभ्यस्त्रगम् हतीभ्यस्त्रगम् हतेभ्य उगणाभ्य उगणाभ्यस्त्रगम् हतीभ्यश्च चत्रगम् उगणाभ्य उगणाभ्यस्त्रगम् हतीभ्यश्च दृग्म् हतीभ्यश्चदृग्म् हतीभ्यस्तृग् हतीभ्यश्च वो वस्तुदृग्म् हतीभ्यस्त्रगम् हतीभ्यश्चवः च वो वस्तदवो नमो नमो वस्तदवो नमः वो नमो नमो वोभो नमो नमः नमो नमः नमो गृत्सेभ्यो गृत्सेभ्यो नमो नमो गृत्सेभ्यो गृत्सपदिभ्यो गृत्सपदिभ्यो गृत्सेभ्यो नमो नमो गृत्सेभ्यो गृत्सपदिभ्यः गृत्सेभ्यो गृत्सपदिभ्यो गृत्सपदिभ्यो गृत्सेभ्यो गृत्सेभ्यो गृत्सपदिभ्यश्च च कृत्सपतिभ्यो गृत्सेभ्यो गृत्सेभ्यो गृत्सपतिभ्यश्च गृत्सपदिभ्यश्च च गृत्सपतिभ्यो गृत्सपतिभ्यश्च वो वश्च गृत्सपतिभ्यो गृत्सपतिभ्यश्च इति गृत्सपति Chahaa Chavo Vascha Chavo Namo Namo Vascha Chavo Namaha Voo Namo Namo Voo Voo Namo Namaha Namo Namo Vrata E Phyo Vrata E Phyo Namo Vrata E पतिभ्यो व्रातपतिभ्यो व्राते नमो नमो व्राते एभ्यो व्रातपतिभ्यः व्राते एभ्यो व्रातपतिभ्यो व्रातपतिभ्यो व्राते एभ्यो भ्यश्च च व्रातपतिभ्यो व्राते एभ्यो व्राते एभ्यो व्रातपतिभ्यश्च व्रातपदेभ्यश्च च व्रातपतिभ्यो व्रातपतिभ्यश्च वो वश्च व्रातपतिभ्यो व्रातपतिभ्यश्च वः व्रातपदेभ्य इति व्रातपतिभ्यः च वश्च वो नमो नमो वश्च वो नमः वो नमो नमो वो वो नमो नमः नमो नमः नमो गणेभ्यो गणेभ्यो नमो नमो गणेभ्यो गणपतिभ्यो गणपतिभ्यो गणेभ्यो नमो नमो गणेभ्यो गणपतिभ्यः गणेभ्यो गणपतिभ्यो गणपतिभ्यो गणेभ्यो गणेभ्यो गणपतिभ्यश्च च गणपतिभ्यो गणेभ्यो गणेभ्यो गणपतिभ्यश्च गणपतिभ्यश्च च गणपतिभ्यो गणपतिभ्यश्च वो वश्च गणपतिभ्यो गणपतिभ्यश्च वः गणपतेभ्य इति गणपतिभ्यः च वो वस्च वो नमो नमो वस्तु च वो नमो नमो वो वो नमो नमः नमो नमः नमो विरूपेभ्यो विरूपेभ्यो नमो नमो विरूपेभ्यो विश्वरूपेभ्यो विश्वरूपे रूपेभ्यो नमो नमो विरूपेभ्यो विश्वरूपेभ्यः विरूपेभ्यो विश्वरूपेभ्यो विश्वरूपेभ्यो विरूपेभ्यो विरूपेभ्यो विश्वरूपेभ्यश्च च विश्वरूपेभ्यो विरूपे भ्यो विरूपेभ्यो विश्वरूपेभ्यश्च विरूपेभ्य इवी रूपेभ्यः विश्वरूपेभ्यश्च च विश्वरूपेभ्यो विश्वरूपेभ्यश्च वो वश्च विश्वरूपेभ्यो विश्वरूपेभ्यश्च वः विश्वरूपे विश्वरूपेभ्यः च चवो वश्च वो नमो नमो वश्च वो नमः वो नमो नमो वो वो नमो नमः नमो नमः नमो महद्भ्यो महद्भ्यो नमो नमो महद्भ्यः क्षुल्लकेभ्यः क्षुल्लकेभ्यो महद्भ्यो नमो नमो महद्भ्यः क्षुल्लकेभ्यः महद्भ्यः क्षुल्लकेभ्यः क्षुल्लकेभ्यो महद्भ्यो महद्भ्यः क्षुल्लकेभ्यश्च च क्षुल्लकेभ्यो महद्भ्यो महद्भ्यः क्षुल्लकेभ्यश्च महद्भ्य इति महत् क्षुल्लकेभ्यश्चक्षुल्लकेभ्यः क्षुल्लकेभ्यश्च वो वश्चक्षुल्लकेभ्यः क्षुल्लकेभ्यश्च वः च वो वस्तु वो नमो नमो वस्ततवो नमः वो नमो नमो वो वो नमो नमः नमः नमो रथिभ्यो रथिभ्यो नमो नमो रथिभ्यो रथेभ्यो रथेभ्यो रथिभ्यो नमो नमो रथिभ्यो रथेभ्यः रथिभ्यो रथेभ्यो रथेभ्यो रथिभ्यो रथिभ्यो रथेभ्यश्च च रथेभ्यो रथिभ्यो रथिभ्यो रथेभ्यश्च रथेभ्य इति रथि यहा। अरथेभ्यश्च रथेभ्यो रथेभ्यस्तवो वश्च रथेभ्यो रथेभ्यस्तवः च वो वस्च नमो नमो वस्तच वो नमः वो नमो नमो वो वो नमो नमः नमो नमः <hit speech> namo rathebhyo rathebhyo e namo namo rathebhyo rathapadebhyo rathapadebhyo rathebhyo e namo namo rathebhyo e rathapadebhyah rathebhyo e rathapadebhyo rathapadebhyo rathebhyo e rathebhyo e ने ने भ्यो रथपतेभ्यश्च च रथपतेभ्यो रथे एभ्यो रथे एभ्यो रथपतेभ्यश्च रथपतेभ्यश्च च रथपतेभ्यो रथपतेभ्यश्च वो वश्च रथपतेभ्यो रथपतेभ्यश्च वः रथपतेभ्य रथपति ह्यः जवो वस्त चवो नमो नमो वस्त चवो नमो महा वो नमो नमो वो वो नमो नमो महा नमो नमः नमस्ते नभ्यसेनाभ्यो नमो नमस्तेनाभ्यसेनानिभ्यस्तेनानिभ्य सेनाभ्यो नमो नमस्तेनाभ्यसेनानिभ्यः सेनाभ्यसेनानिभ्य सेनाभ्यः सेनानिभ्यश्च च सेनानिभ्यः सेनाभ्यः सेनाभ्यः सेनानिभ्यश्च सेनानिभ्यश्च च सेनानिभ्यः सेनानिभ्यश्च वो वश्च सेनानिभ्यः सेनानिभ्यश्च वहा सेनानिभ्य इति सेनानि या च वो वश्च च नमो नमो वश्च च वो नमः वो नमो नमो वो वो नमो नमः नमो नमः नमः शत्रुभ्यः शत्रुभ्यो नमो नमः क्षत्रभ्यः सङ्ग्रहीतृभ्यः सङ्ग्रहीतृभ्यः क्षत्रभ्यो नमो नमः क्षत्रभ्यः सङ्ग्रहीतृभ्यः क्षत्रभ्यः सङ्ग्रहीतृभ्यः सङ्ग्रहीतृभ्यः क्षत्रभ्यः क्षत्रभ्यः सङ्ग्रहीतृभ्यश्च च सङ्ग्रहीतृभ्यः क्षत्रुभ्यः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च क्षत्रभ्य इति क्षत्र ह्यः सङ्ग्रहीतृभ्यश्च च सङ्ग्रहीतृभ्यः सङ्ग्रहीतृभ्यश्च वो वश्च सङ्ग्रहीतृभ्यः वः सङ्ग्रहीतृभ्य इति सङ्ग्रहीतृह्यः च वश्च वो नमो नमो वश्च वो नमः वो नमो नमो भो भो नमो नमः नमो नमः नमस्तक्षभ्यस्तक्षभ्यो नमो नमस्तक्षभ्यो रथकारेभ्यो रथकारेभ्यस्तक्षभ्यो नमो नमस्तक्षभ्यो रथकारेभ्यः तटक्षभ्योरथकारेभ्यो रथकारेभ्यस्तक्षभ्यस्तक्षभ्यो रथकारेभ्यश्च च रथकारेभ्यस्तक्षभ्यस्तक्षभ्यो रथकारेभ्यश्च तक्षभ्य इति तक्षभ्यः रथकारेथकारेथकारे रथकारे वो वस्थकारेथकारेभ्यस्व रथकारे रथकारे चवो चवो नमो नमो चवो नम भो नमो नमो भो भो नमो नमः नमो नमः नमः कुलालेभ्यः कुलालेभ्यो नमो नमः कुलालेभ्यः कर्मा रेभ्यः कर्मा रेभ्यः कुलालेभ्यो नमो नमः कुलालेभ्यः कर्मा रेभ्यः कुलालेभ्यः कर्मा रेभ्यः कर्मा रेभ्यः कुलालेभ्यः कर्मा रेभ्यस्तचकर्मा रेभ्यः कर्मा रेभ्यस्तवो वश्च कर्मा रेभ्यः कर्मा रेभ्यस्तवः च वो वश्च वो नमो नमो वस्तच वो नमः वो नमो नमो वोभो नमो नमः नमो नमः namah kunjestebhya e, kunjestebhyo e, namo namah kunjestebhyo e, nishade nishadebhyo kunjestebhyo e, namo namah kunjestebhyo e, nishadebhyah पुञ्जिष्टे एभ्यो निषादेभ्यो निषादेभ्यश्च च निषादेभ्यो निषादेभ्यश्च वो वश्च निषादेभ्यो निषादेभ्यस्तवः च वो वश्च नमो नमो वस्तच वो नमः वो नमो नमो वो नमो नमः नमो नमः नम इषुकृद्भ्य इषुकृद्भ्यो नमो नम इषुकृद्भ्यो धन् वक्रद्भ्यो धन् वक्रद्भ्य इषुकृद्भ्यो नमो नम इषुकृद्भ्योऽधन् वक्रद्भ्यः इषोक्रद्भ्योऽधन् वाक्रद्भ्योऽधन् वाक्रद्भ्य इषोक्रद्भ्य इषोक्रद्भ्योऽधन् वाक्रद्भ्यश्च च धन् वाक्रद्भ्य इषोक्रद्भ्य इषोक्रद्भ्योऽधन् वाक्रद्भ्यश्च इषोक्रद्भ्य इतीषुक्रतभ्यः धन्वक्रद्भ्यश्च च धन्वकृद्भ्यो धन्वक्रद्भ्यश्च वो वश्च धन्वक्रद्भ्यो धन्वकृद्भ्यश्च वः धन्वकृद्भ्य इति धन्वकृत् ह्यः च वो वश्च वो नमो नमो, नमो वश्च वो नमः वो नमो नमो वो वो नमो नमः नमो नमः नमो मृगयोभ्यो मृगयुभ्यो नमो नमो मृगयोभ्यस्वनिभ्यस्वनिभ्यो मृगयोभ्यो नमो नमो मृगयोभ्यस्वनिभ्यः मृगयुभ्यस्वनिभ्यश्वणिभ्यो मृगयुभ्यो मृगयोभ्यश्वनिभ्यश्च्यो मृगयुभ्यो मृगयोभ्यश्वनिभ्यश्च मृगयोभ्य इति मृगयोः श्वनिभ्यश्चतश्विनिभ्यस्वनिभ्यश्च वो वस्तश्विभ्यस्वनिभ्यस्तवः श्वनिभ्य इति स्वनिभ्यः च वो वस्तच वो नमो नमो वस्तच वो नमः वो नमो नमो वो वो नमो नमः नमो नमः नमःष्वभ्यस्वभ्यो नमो नमःभ्यः स्वपतिभ्यः नमो नमःभ्यः स्वपतिभ्यः स्वभ्यः स्वपतिभ्यः स्वपतिभ्य ह्यः स्वपदिभ्यश्च च स्वपदेभ्यः स्वपदिभ्यश्च वो वश्चपदिभ्यः स्वपदिभ्यश्च वः स्वपदिभ्य इति स्वपति ह्यः च वो वश्च वो नमो नमो वश्च वो नमः वो नमो नमो वोभो नमः नम इति नमः नम आप्याभि